आद्रताम् अनुसृत्य कश्चित् महाराजः आसीत् तस्य किञ्चित् व्यवसनम् आसीत् यत् सः यदा कदापि काव्यं श्रोतुम् इच्छति स्म यदा तादृशी इच्छा भवति तदा पुरतः यः दृश्यते तमेव सः आदिशति स्म काव्यं रचयित्वा श्रावयतु इति बहवः काव्यरचनं श्रु ततः पारितोषिकानि प्राप्नुवन्ति स्म परन्तु ये काव्यरचने असमर्थाः भवन्ति ते महाराजेन दण्ड्यन्ते स्म अपि एकदा महाराजः विहारार्थं उद्यानं गतवान् तस्मिन् समये तस्य मनसि काव्यश्रवणस्य इच्छा उत्पन्ना झटिति सः तत्र कार्यं कुर्वन्तम् उद्यानपालकम् एव आदिष्टवान् काव्यरचनं कृत्वा श्रावयतु इति उद्यानपालकः जानाति स्म यत् इदानीं किमपि यदि न श्रावयामि तर्हि महाराजस्य कोपस्य भाजनं भवामि इति अनुचनं सः एकम् एकं पद्यं रचयित्वा श्रावितवान् तत ना कस्मै अपि दत्तं यत् भगवता भवते दत्तं नतत तत् केनापि भवते दत्तं यत् भवता मह्यं दत्तम् इति पद्ये विद्यमानं स्वस्तु इति ज्ञात्वा प्रसन्नः महाराजः उद्यानपालकम् उक्तवान् मनोपि लशितं याचतु दास्यामि इति तदा उद्यानपालकः सहस्रं सुवर्णनानकानि याचितवान् तत् श्रुत्वा महाराजः उक्तवान् एतत्तु अधिकम् अभवत् किञ्चित् न्यूनं याचतु इति अनुचनमेव उद्यानपालकः तर्हि एकं नाणकं ददातु इति अवदत् महाराजः आश्चर्यचकितः सः सहस्रनानकानाम् एकनानकस्य च मध्ये महत् अन्तरम् अस्ति किमर्थं तन्मध्ये एकां सङ्ख्यां न उक्तवान् इति तदा उद्यानपालकः उक्तवान् महाराज मया अधुना पुत्र्याः विवाहः करणीयः अस्ति तदर्थं मम धनस्य आवश्यकता अस्ति प्रथमवारम् अहं भवतः स्थानं पात्रतां व्यक्तित्वं च दृष्ट्वा पुत्र्याः विवाहार्थमपि सहायं भवतु इति मत्वा नानकानि याचतवान य भा न्यूनम याचतवा तदा तदातु अहम मम स्थ पात्रता चरगणय्य एक नानक याचित दान स्वीकरण चुनमें पात्रदुनगुण खलुतिद्यानपाल वचन शुवा महाराज लज्जि अभवत सह तस्में स्वस्थ व्यक्ति पात्रदनुगुण सहस्र सुवर्णना दत्वा